अथ षण्णवतितमः सर्गः तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा रावणस्याप्रसह्यन्तम् शरसम्पातमेकतः रशेकुःसहितम् यथा तेर्दिता निशितैर्बाणैः क्रोशन्तोऽ पावकार्चिः समाविष्टा दह्यमाना यथा गजाः प्लवङ्गानामनीकानि महाभ्राणीव मारुतः संयौ समरे तस्मिन् विधमन् रावणः शरैः तदनन्तरसा कृत्वा राक्षसेन्द्रोऽवलोकसा आससादततो युद्धे त्वरितम् राघवम् सुग्रीवस्तान् कपीन् भग्नान् विद्रावितान् रणे गुल्मे सुषेणम् निक्षिप्य चक्रे युद्धे द्रुतम् मनः आत्मनः वीरं वीरम् सतम् निक्षिप्य वानरम् सुग्रीवोऽभिमुखम् शत्रुम् प्रतस्थे पादपायुधः पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः अनु जग्मुर्मः शैलान् विविधांश्च वनस्पतीन् ननर्दयुधि सुग्रीवः स्वरेण पोथयन् विविधांश्चान्यान् ममोत्तम राक्षसान् ममर्द च महाकायो राक्षसान् वा नरेश्वरः युगान्तसमये वायुः प्रवृद्धानगमानि वा विकीर्ण शिरसः पेतुर्विकीर्णा इव पर्वताः अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः सुग्रीवेण प्रभग्नेषु ददत्सु च पतत्सु च विरूपाक्षस्वकन्नामधन्वी विश्राव्य राक्षसः रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् न नर्दभीम निर्ह्रादम् बाणरानभ्यधावता सुग्रीवे सशरान् घोरान् विससर्ज च मोमुखे स्थापयामास चोद्विग्नान राक्षसान् सम्प्रहर्षयन् सोऽति विद्धश्चितैर्बाणैः कपीम् द्रस्तेन रक्षसा चुक्रोश च महाक्रोधो वधे चास्य मनो दधे ततः पादपमुद्धृत्य हरिः अभिपत्यजघानास्य प्रमुखेतम् महागजम् स तु प्रहाराभिहतः सुग्रीवेण महागजः अपासर्पद्धनुर्मात्रम् निशसादननाद च गजात्वमथितात् तूर्णमपक्रम्य स वीर्यवान् राक्षसोऽभिमुखः भर्त्सयन्निव सुग्रीव माससादव्यवस्थितम् स हितस्यापि सङ्क्रुद्धः प्रगृह्य विपुलाम् शिलाम् विरूपाक्षस्य चिक्षेप सुग्रीभोजलदोपमाम् सताम् शिलामापतन्तीम् दृष्ट्वा राक्षसपुङ्गवः अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा तेन मुहूर्तमभवद्भूमौ विसञ्ज्ञ इव वानरः सहसा सतदोत्पत्य राक्षसस्य महाहवे मुष्टिम् संवर्त्य वेगेन पातयामास वक्षसि मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः तेन खड्गेण सङ्क्रुद्धः च मोमुखे कवचम् पातयामास पद्भ्यामभिहतोपतत् स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् तलप्रहारवशनेः समानम् भीमनिःस्वनम् तलप्रहारम् तद्रक्षः सुग्रीवेण समुद्यतम् नैपुण्यान् मोचयित्वैनम् मुष्टिनो ततस्तु सङ्क्रुद्धतरः सुग्रीभो वा नरेश्वरः मोक्षितम् तेन रक्षसा स ददर्शान्तरम् तस्य विरूपाक्षस्य वानरः ततोऽन्यम् पातयत्क्रोधाच्छङ्खदेशे महातलम् महेन्द्रशनिकल्पेन तलेनाभिहतः क्षितौ पपातरुधिरक्लिन्नः शोणितम् हि समुद्गिरन् स्रोतोऽभ्यस्त्वविरूपाक्षो जलम् प्रस्रवणादिव क्रोधात् सफेनम् ददृशोस्ते विरूपाक्षम् विरूपाक्षतरम् कृतम् स्फुरन्तम् परिवर्तन्तम् पार्श्वे नरुधिरोक्षितम् करुणम् च विनर्दन्तम् ददृशुः कपयोरिपम् तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम् बलार्णवौ सस्वनतुश्च भीमौ महार्णवौ द्वाविव विनाशितं प्रेक्ष्य विरूपनेत्रं नेत्रम् महाबलन्तम् हरिपार्थिवेन समेतं समेतम् कपि राक्षसानामुद्वृत्त गङ्गा प्रतिमम् बभूव इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षण्णवतितमः